राजा राज्ञः कथं साधोन्हिंस्या नृपतिसत्तमा तद्राज्ञः सन्निगृह्यत्वं रुद्रायोपजिहीर्षसि अस्मांस्तदेनो गच्छेद्धीकृतं बार्हद्रथ त्वया वयं हि शक्ता धर्मस्य रक्षणे धर्मचारिणः मनुष्याणां समालम्भो न च दृष्टः कदाचन स कथं यष्टुमिच्छसि शङ्करम् सवर्णो हि सवर्णानां पशुसंज्ञां करिष्यसि कोऽन्य एवं यथा हि त्वम् जरासन्धवृथाम् ज्ञातिक्षयकरम् वयमार्तानुसारिणः ज्ञातिवृद्धिनिमित्तार्थम् विनिहन्तुमिहागताः नास्ति लोके पुमानन्यः क्षत्रियेष्विति चैव तत् मन्यसे स च ते राजन् सुमहान् बुद्धिविप्लवः कोहि हि जानन्नभिजनमात्मवान् क्षत्रियो नृप नाविषेत् स्वर्गमतुलम् स्वर्गम् ह्येव समास्थाया रणयज्ञेषु दीक्षिताः जयन्ति क्षत्रिया लोकांस्तद्विद्धिमनुसर्षभ स्वर्गयो निर्महद्ब्रह्म स्वर्गयो निर्महद्यशः स्वर्गयो निस्तपो युद्धे मृत्युः सोऽव्यभिचारवान्